सर्गः अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्यः प्रत्यभाषतदुर्धर्षः श्रुतवानात्मनि स्थितम् ममापि च विवक्षास्ति काचित्प्रतिविभीषणम् श्रोतुमिच्छामि तत्सर्वम् भवद्भिः श्रेयसि मित्रभावेन सम्प्राप्तम् न कथञ्चन दोशो यद्यपि तस्य स्यात्सतामेतदगर्हितम् सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ततः शुभतरम् वाक्यमुवाच हरिपुङ्गवः स्वदुष्टो वाप्यदुष्टो वा किमे शरजनीचरः ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत् को नामसभवेत्तस्य यमेष न वानराधिपतेर्वाक्यम् श्रुत्वा सर्वानुदीक्ष्यतु ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् इति होवाच काकुत्स्थो वाक्यम् सत्यपराक्रमः अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च न शक्यमीदृशम् वक्तुम् हरीश्वरः अस्ति सूक्ष्मतरम् किञ्चिद्यथात्र प्रतिभाति प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु अमित्रास्तत्कुलीनाश्च प्रातिधेष्याश्च कीर्तिताः व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् एष प्रायो नरेन्द्राणाम् शङ्कनी यस्तु शोभनः यस्तु दोषस्त्वया प्रोक्तो ह्यादानेरिबलस्य च तत्रते ते कीर्तयिष्यामि यथा शास्त्रमिदम् शृणु न वयम् तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति सङ्गताः प्रणादश्च महानेशोऽन्योन्यस्य भयमागतम् इति भेदम् गमिष्यन्ति तस्माद्ग्राह्यो विभीषणः न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः एवमुक्तस्तु रामेण सुग्रीवः लक्ष्मणः उत्थायेदम् महाप्राज्ञः प्रणतो वाक्यमब्रवीत् रावणेन प्रणिहितम् तमवेहि निशाचरम् तस्याहम् निग्रहम् मन्ये क्षमम् क्षमवताम्बराक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमिहा गतः लक्ष्मणे महाबाहो महाबाहोऽसध्यः स चिवैः सह रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः एवमुक्त्वा रघुश्रेष्ठम् सुग्रीवो वाहिनीपतिः वाक्यज्ञो वाक्यकुशलम् ततो मौनमुपागमत् स सुग्रीवस्य तद्वाक्यं राम श्रुत्वा विमृश्य वाक्यमुवाच हरिपुङ्गमम् स दुष्टो वाप्यदुष्टो वा किमे शरजनीचरः सूक्ष्ममप्यहितम् कर्तुम् मम शक्तः कथञ्चन इशाचान् दानवान्यक्षान् पृथिव्याम् चैव राक्षसार अङ्गुल्यग्रेण तान् हन्यामिच्छन् कपोतेन शत्रुः अर्चितश्च यथा न्यायम् स्वैश्च माम् सैर्निमन्त्रितः सहितम् प्रति जग्राह भार्या हर्तारमागतम् कपोतो वानरश्रेष्ठ किम् पुनर्मद्विधो जनः ऋषे कण्वस्य पुत्रेण कण्डुना परमर्षिणा शृणुगाथा पुरा गीता धर्मिष्ठा सत्यवादिना बद्धाञ्जलिपुटम् दीनम् याचन्तम् शरणागतम् न हन्यादानुशंस्यार्थमपि शत्रुम् परम् आर्तो वा यदि वा दृप्तः परेषाम् शरणम् गतः परिः प्राणान् परित्यज्य आदाय सुकृतम् तस्य सर्वं गच्छेदरक्षितः एवम् दोषो महानत्र प्रपन्नानामरक्षणे अस्वर्ग्यम् चायशस्यम् च बलवीर्यविनाशनम् करिष्यामि यथार्थम् तु कण्डोर्वचनमुत्तमम् धर्मिष्ठम् च यशस्यम् च स्यात्तु फलोदये सकृदेव प्रपन्नाय तवास्मीति च अभयम् सर्वभूतेभ्यो ददाम्येतद्व्रतम् मम आनयैनम् हरिश्रेष्ठदत्तमस्याभयम् मया विभीषणो वा सुग्रीव यदि वा रामस्य तु वच श्रुत्वा सुग्रीवः प्लवगेश्वरः प्रत्यभाषतकाकुत्स्थम् सौहार्देनाभिपूरितः किमत्र चित्रम् धर्मज्ञलोकनाथशिखामणे यत्त्वमार्यम् प्रभाषेथा सत्त्ववान् सत्पथे स्थितः मम चाप्यन्तरात्मायम् शुद्धम् वेत्ति विभीषणम् अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः तस्मात् क्षिप्रम् भवतु राघव विभीषणो महाप्राज्ञः सखित्वम् ततस्तु सुग्रीवचोनिशम् यतद्धरीश्वरेणाभिहितम् नरेश्वरः विभीषणेनाशु जगामसङ्गमम् पतत्रिराजेन यथा पुरन्दरः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे अष्टादशः